जनमेजय उवाच कथम् विराटनगरे मम पूर्वपितामहाः अज्ञातवासमुषिता दुर्योधनभयार्दिताः पतिव्रतामहाभागा सततम् ब्रह्मवादिनी द्रौपदी च कथम् ब्रह्मन्नज्ञाता दुःखिता वसत् वैषम्पायन उवाच यथा विराटनगरे तव पूर्वपितामहाः अज्ञातवासमुषितास्तच्छृणुष्व नराधिप आचख्यौ सर्वमेव तत् कथयित्वा तु तत्सर्वम् ब्राह्मणेभ्यो युधिष्ठिरः अरणीसहितम् तस्मै ब्राह्मणाय ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः सन्निवर्त्यानुजान् सर्वा निति भारत द्वादशेमानि वर्षाणि राज्यविप्रोषिता त्रयोदशोऽयम् सम्प्राप्तः कृच्छ्रात् परमदुर्वसः